अथ चतुर्दशोऽध्यायः श्रीकृष्ण उवाच सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत जामदज्ञेन रामेण क्षत्रं यदवशेषितम् तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिपा निदेशवाग्भिस्तत्तेहवेदितं भरतर्षभास्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते नश्रेणिबद्धाश्च तथान्ये क्षत्रिया भुवि ऐलवंशाश्च ये राजंस्तथैवेक्ष्वा कवो नृपाः तानि चैकशतं विद्धि कुलानि भरतर्षभा ययातेस्त्वेव भोजानां विस्तरो गुणतो महान् भजतेद्यमहाराज विस्तरं सचतुर्दिशं चतुर्दिशम् तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते इदानीमेव वैराजन् वा जरासन्धो महीपतिः अभिभूय श्रियं तेषां कुलानामभिषेचितः स्थितो मूर्ध्नि नरेन्द्राणामोज सर्वशः